अथ द्विसप्ततितमोऽध्यायः कण्व उवाच एवमुक्तस्तया शक्रः सन्धिदेशसदा गतिं प्रातिष्ठत तदा काले मेन का वायुना सह तपसा दग्धकिल्बिषं विश्वामित्रं तप्यमानं का भीरुराश्रमे अभिवाद्य ततः सातं प्राक्रीडदृशिसन्निधौ अपोवाह च वासोऽस्या मारुतं वरवर्णिनी पश्यतस्तस्य तत्रर्षेः अप्यग्निः समतेजसः विश्वामित्रस्ततस्तां तु विषमस्थामनिन्दितां गृद्धां वाससि सम्भ्रान्तां मेन कां मुनिसत्तमः अनिर्देश्य वयोरूपाम् अपश्यद्विव्रतां तदा तस्यारूपगुणान् दृष्ट्वा स चकारभावं संसर्गात् तयाकामवशंगतः। कामवशं गतः न्यमन्त्रयतचाप्येनां सा चाप्यैच्छदनिन्दिता तौ तत्र कालम् उभौ तदा रममाणौ यथा कामं यथैकदिवसं तथा कामक्रोधावजितवान् मुनिर्नित्यं क्षमान्वितः चिरार्जितस्य तपसः क्षयं स कृतवान् ऋषिः तपसः संशया देव मुनिर्मोहं समाविशत् कामरागाभिभूतस्य मुनेः पार्श्वं जगामसा जनयामास स मुनिः प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीं जातमुत्सृजतं गर्भं मेनका मालिनी कृतकार्याततस्तुर्णम् अगच्छच्छक्रसंसदं तं वने विजने गर्भं सिंहव्याघ्रसमाकुले दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन् नेमां हिंस्युर्वने बालां क्रव्यादामांसगृद्धिनः